गणेशपुराणम् उपासनाखण्डम् अध्यायम् 75 क उवाच श्रुत्वा दृष्ट्वा महिमानं व्रतोद्भवम् स्वयं कर्तुम् मनाः प्राह वसिष्ठं मुनिपुङ्गवम् राजोवाच मुहूर्तं वदसङ्कष्टचतुर्थी व्रतहेतवे व्रतं कर्तुमिहेच्छामि सद्य प्रत्ययकारकम् वसिष्ठ उवाच माके कृष्णे भौमवारे कुरुष्व व्रतमुत्तमं सर्वसिद्धिकरं सर्वकामदं राजसत्तम ब्रह्मोवाच राजा सम्भृतसम्भारः सपत्नीकोदिभक्तिमान् अचिरेणैव सम्प्राप्ते वसिष्ठोक्तदिने शुभे प्रारीप्समानसङ्कष्टचतुर्थीव्रतमुत्तमम् प्राप्तस्नानं विधाया धनित्यकर्म समाप्य च गणेशं पूजयित्वैव स्वस्ति वाच्य स तदोऽनुज्ञां समाप्य गणेशे मन आधाय तन्नाम जप एकाङ्गुष्ठस्तिदस्तावद्यावदस्तमीयाद्रविः पुनस्नानं चकाराशु सायं सन्ध्यामुपास्य च प्रारभत्पूजनं सम्यग् वसिष्ठेन समन्वितः महामण्डपिकां कृत्वा कदलीस्तम्भमण्डिताम् नानालङ्कारवस्त्राढ्यां छत्रचामरशोभिता आदर्शपङ्क्तिरुचिरां पुष्पमाला विभूषितां नानामणिप्रभायुक्तां दीपमाला विराजिताम् तन्मध्ये स्वर्णकलस्ये स्थापयित्वा गजाननीं सौवर्णीं प्रतिमां चारु सर्वावयवसुन्दरां नानालङ्काररुचिरां नानारत्नविभूषितां पठत्सु गायत्सु गायकेषु च नदत्सु सर्वतूर्येषु नृत्यत्सु नर्तकेषु च वैदिकैश्चैव पौराणैस्तां मूर्तिं समपूजयत उपचारैषोडशभिः पञ्चामृतपुरःसरं मोदकापूपलड्डूकपायसान्नं सशर्करम् नानाव्यञ्जनशौभाढ्यं पञ्चामृतसमन्वितं नैवेद्यं पुरदस्ताप्य जलं च चारुगन्धयुग समर्पयामास नृपो गजाननसुतुष्टये फलानि पूगताम्बूलं दक्षिणां रत्नकाञ्जनीम् दूर्वाम् नीराजनम् मन्द्रपुष्पाञ्जली नने कथा तिधये गणनाधाय चन्द्रायार्घ्यं ददावथ ब्राह्मणान् पूजयामास सादरं चाप्य भूभुजत अयुतं गा ददौ तेभ्यो तदत्सुहृद्बन्धुयुतस्वयं च बुभुजे नृपः रात्रौ जागरणं चक्रे गीतवाद्यकथादिभिः प्रभादे विमले स्नात्वा पुनः सम्पूज्य पूर्ववद मूर्तिं तां गणनाथस्य वसिष्ठाय स दक्षिणाम् राम् ददौ राजा ततस्तुष्टो गजाननः विमानम् प्रेषयामासर्वसम्पद्विराजितम् तदुदयस्थापितस्तत्र गजाननः स्वरूपवान् पश्यताम् सर्वलोकानाम् मन आनन्दयन्मुहुः चलितो देवलोकाय राजा पुण्यप्रभावदः तमूचुर्देवदूदास्ते गजाननस्वरूपिणः नानालङ्कारसौभाढ्या मुकुटाक्रान्तमस्तकाः विनायकेन तुष्टेन विमानं प्रेषितं तव त्वद्दर्शन्नौत्सुक्य धृता तदो वयमुपागताः यदि तद्वचनं श्रुत्वा मुमोच्चाशूणि भूमिपः जगादगद्गदा गिरा रोमाञ्चाञ्चिदविग्रहः तानुवाच तदो राजा शूरसेन अव्यक्तस्याप्रमेयस्य नितस्य जगदीशितः वाङ्मनो गोचरस्यापि नखे दुर्ममदर्शने न समर्थाश्चयं वेदाशास्त्राणि निरूपितं यञ्च स्मरति सततं तेनाहं चेत् स्मृदो दूदास्तर्हि भाग्यं महन्मम इत्याकर्ण्यदु तद्वाक्यं दूधा ऊजुः पुनर्नृपं न जानीमो वयं राजन् भक्तानां महिमा कथं निर्गुणं यन्निराकारं येन साकारतामियाद राजोवाच येकामे का मह मे महदि देवे भवत्सु च तुष्ठे सुनगरीं हित्वा कथं यायाम गजाननं न भक्षिदं विनाप्यायितायैर्मया हालाहलं क्वचिद स कथं परमानन्दं भोक्ष्यं येतैर्विनानकाः पुनरूचुश्च तं दूतास्त्वदिच्छां परिपूज्यतां न चेद्गजाननः क्रोधा ताडयिष्यति नो किलान् ब्रह्मोवाच ततः विमाने निदधुः क्षणाद् चतुराकरजा ब्रह्म सर्वजन्तवः सर्वे दिव्याम्बरा दिव्यवस्त्रालङ्कारशोभिनः ऊचुः परस्परं सर्वे किमे तदद्भुतम् महद अस्माभिर्न कृतं पुण्यं विमानं कथमीदृश्यम् अपरे चाब्रुवंस्तत्र राजपुण्यबलादिदं यथा निधिबलाद्धाधुमात्रस्य हाटकम् भवेत् अधिपापे यथा साधुवचसा सिद्धिमाप्नुयाद तथैव राजपुण्येन वयं सर्वे समुद्धृताः तदो दूदा गदि वैनायकादुधा गदिमूर्ध्वामकल्पयन् जडीभूतं विमानं तन्नोदतिष्ठन् महीतलाद तदः संशयिदं सर्वं कथमेदिवं व्रजेद ऊजुः परस्परं लोका निर्दैवस्य निधि कुतः आरुरुक्षेत कथम् भिक्षापात्रम् शिक्यम् महत्तरम् ददृश्युः सर्वथ केचित्कुष्ठीदृष्टिपथम् गदः उवाच कश्चिद्राजानम् कुष्ठिनम् त्वमिमम् त्यज आस्मिन्नधो गे यानमूर्ध्वमेतद्भविष्यति शूरसेन उवाचैदान्धूदांस्तम् त्यक्तुमिच्छतः अहम् पापसमाचारस्त्याज्यो नेयः इमेऽखिलः अथवा कद्यदामस्य पूर्वपापं च जन्म च मत्स्नेहात्सर्व वे दूता ऊचुः न कार्या नृपदे चिन्ता वदिष्यामो वयं तव जन्मपापमुपायं च कुष्ठिनो दुष्टकर्म च इति श्रीगणेशपुराणे उपासनाखण्डे पञ्चसप्ततितमोऽध्यायः ओ